अथ सप्त सर्गः आप्लुत्य च महावेगः पक्षवानिव पर्वतः भुजङ्गयक्ष गन्धर्व प्रबुद्धकमलोत्पलम् सचन्द्रकुमुदम् रम्यम् सार्ककारण्डवम् शुभम् शिष्यश्रवणकादम्बमभ्रशैलशाद्वलम् पुनर्वसुमहामीनम् लोहिताङ्गमहाग्रहम् ऐरावत महाद्वीपम् स्वाती हंस विलासितम् वात सङ्घातजालोर्मिचन्द्राम् शुशिशिराम्बुमत् हनूमान परिश्रान्तः पुप्लु वेगगनार्णवम् ग्रसमान इवाकाशम् ताराधिपमिवोल्लिखन् हरन्निवस नक्षत्रम् गगनम् सार्कमण्डलम् हनुमान्मेघजालानि विकर्षन्निव गच्छति पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च हरितारुणवर्णानि महाभ्राणि च काशिरे प्रविशन्नभ्रजालानि निष्क्रमंश्च पुनः पुनः प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव दृश्यते विविधा भ्रघनापन्नगोचरोधवलाम्बरः दृश्यादृश्यतनुर्वीरस्तथा चन्द्रायतेऽम्बरे तार्क्ष्यायमाणो गगने सबभौ वायुनन्दनः दारयन्मेघवृन्दानि निष्पतंश्च पुनः पुनः नदन्नादेन महता मेघस्वनमहास्वनः प्रवरान् राक्षसान् हत्वा नाम विश्राव्यचात्मनः आकुलाम् नगरीम् कृत्वा व्यथयित्वा च रावणम् अर्दयत्वा महावीरान् वैदेहीमभिवाद्य आजगाम महातेजा पुनर्मध्येन सागरम् पर्वतेन्द्रम् सुनाभम् समुपस्पृश्य वीर्यवान् ज्यामुक्त इव नाराजो महावेगोऽभ्युपागमत् स किञ्चिदारात्सम्प्राप्तः समालोक्य महागिरिम् महेन्द्रम् मेघसङ्काशम् ननादसमहाकपिः स पूरयामासकपिर्दिशो दश समन्ततः नदन्नादेन महता मेघस्वनमहास्वनः सतम् देशमनुप्राप्तः सुहृद्दर्शनलालसः ननादसु महानादम् लाङ्गूलम् चाप्यकम्पयत् तस्य नानद्यमानस्य सुपर्णाचरिते पथि फलतीवास्य घोषेण गगनम् सार्कमण्डलम् ये तत्रोत्तरे कूले समुद्रस्य महाबलाः पूर्वम् संविष्ठिताः शूरा वायुपुत्रदिदृक्षवः महतो वायुनुन्नस्य तोयदस्येव निःस्वनम् शुश्रुगुस्ते तदाघोषमुरुवेगम् हनूमतः ते दीनमनसः सर्वे शुश्रुवः काननौकसः वानरेन्द्रस्य निर्घोषम् पर्जन्यनिनदोपमम् निशम्य न दतो नादम् वा समन्ततः बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः उपामन्त्र्यहरीन् सर्वानिदम् वचनमब्रवीत् सर्वथा कृतकार्योऽसौ हनूमान् नात्र संशयः न ह्यस्याकृतकार्यस्य नाद भवेत् तस्य बाहूरुवेगम् च निनादम् च महात्मनः निशम्य हरयो हृष्टाः समुत्पेतुर्यतस्ततः तेन गाग्रान्न च प्रहृष्टाः समपद्यन्त हनूमन्तम् दिदृक्षवः ते प्रीताः पादपाग्रेषु गृह्यशाखामवस्थिताः वासांसि च प्रकाशानि समाविध्यन्त वा संलीनो यथा गर्जति मारुतः एवम् जगर्ज बलवान् हनूमान् मारुतात्मजः तमभ्रघन सङ्काशमापतन्तम् महाकपिम् दृष्ट्वा देवानराः सर्वे तस्थः प्राञ्जलयस्तदा ततस्तु वेगवान् वीरो गिरेर्गिरिनिभः कपिः निपपातगिरेस्तस्य शिखरे पादपाकुले हर्षेणापूर्यमाणोऽसौरम्ये पर्वतनिर्झरे छिन्नपक्ष इवाकाशात् पपातधरणीधरः परिवार्य च सर्वे पराम् प्रीतिमुपागताः प्रहृष्टवदनाः सर्वे तमागतमुपागमन् उपायनानि चादाय मूलानि च फलानि च प्रत्यर्चयन् हरिश्रेष्ठम् हरयो मारुतात्मजम् विनेदुर्मुदिताः केचित् केचित् किल किलाम् तथा हृष्टाः पादपशाखाश्च आनिर्न्युर्वानरर्षभाः हनूमांस्तु गुरून् वृद्धाञ्जाम्बवत्प्रमुखांस्तदा चैव सोमम् सताभ्याम् पूजितः पूज्यः कपिभिश्च प्रसादितः दृष्टा देवीति विक्रान्तः सङ्क्षेपेण न्यवेदयत् निशसाद च हस्तेन गृहीत्वा वालिनः सुतम् रमणीयेव महेन्द्रस्य गिरेस्तदा हनुमानब्रवीत्पृष्टस्तदा तान् वाणरऋषभान् अशोकवनिका संस्था दृष्टा सा रक्ष्यमाणा सुघोराभि राक्षसीभिरनिन्दिता एकवेणीधरा बाला रामदर्शनलालसा उपवासपरिश्रान्ता मलिना जटिलाकृशा ततो दृष्टेति वचनम् महार्थमृतोपमम् निशम्यमारुतेः सर्वे मुदिता वानराभवन् क्ष्वेडन्त्यन्येन दन्त्यन्ये गर्जन्त्यन्ये महाबलाः चक्रुः किल किला मन्ये प्रतिगर्जन्ति चापरे केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः आयताञ्चितदीर्घाणि लाङ्गूलानि प्रविव्यधुः अपरे तु हनूमन्तम् श्रीमन्तम् वानरोत्तमं। आप्लुत्य गिरिशृङ्गेषु संस्पृशन्ति स्म हर्षिताः सर्वेषाम् हरिवीराणाम् मध्ये वाचमनुत्तमा सत्त्वे वीर्येण ते कश्चित् समो वानर विद्यते यदवप्लुत्य विस्तीर्णम् सागरम् पुनरागतः जीवितस्य प्रदाता नस्त्वमेको वानरोत्तमा त्वत्प्रसादात् समेष्यामः अहो स्वामिनि भक्तिरहो वीर्यमहो धृतिः दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकम् सीता वियोगजम् ततोऽङ्गदम् हनूमन्तम् जाम्बवन्तम् च वानराः परिवार्य प्रमुदिता भेजिरे विपुलाः उपविष्टा गिरेस्तस्य शिलासु विपुलासु ते श्रोतुकामाः समुद्रस्य दर्शनम् चापि लङ्काया सीताया रावणस्य च तस्थुः प्राञ्जलयः सर्वे हनूमद्वदनोन्मुखाः तस्थौ तत्राङ्गद श्रीमान् वाणरैर्बहुभिर्वृतः उपास्यमानो विबुधैर्दिवि हनुमता हनूमता कीर्तिमता यशस्विना तथाङ्गदेनाङ्गद नद्धबाहुना मुदा तदाध्यासी मुन्नतम महन्मीधराग्रं ज्वलित श्रिियाम रायणे वाक आदि का्य सुंदर कांडे सप्त